श्रीहरये नमः अत त्रयोदशोऽध्यायः नारदोवाच कल्पस्त्वेवं परिव्रजद्देहमात्रावचेषितः ग्रामैकरात्र विनिधा निरपेक्षश्चरेन्महीं बिभ्रूयाद्यसौ परम् त्यक्तं न दण्डलिङ्गाधे अन्यत्किञ्चित् नापधि एक एव चरेद्भिक्षुक् आत्मा रामो नपाश्रयः सर्वभूतसुहृच्छान्तो नारायणपरायणः पश्येदात्मन्यथो विश्वं परे सदसधोऽव्यये आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये सुप्तप्रबोधयो सन्तौ आत्मनो गतिमात्मधृक् पश्यन्भन्तं च मोक्षं च मायामात्रं न वस्तुतः नाभिनन्दे द्रुवं मृत्युम् अद्रुवं वास्य जीवितम् कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् नाच्चास्त्रेषु सज्जेत जीविकां वादवादांश्च जेत्तर्कान् पक्षं कञ्चन संश्रयेत न शिष्यान् अनुभध्नीत ग्रन्थान्नैवाभ्यसेत् बहू न न ना व्याख्यामुपयुञ्जीत नारम्भान् आरभेत् क्वचित् न यतेराश्रमः प्रयायो धर्महेतुर्महात्मनः सान्तस्य समचित् तस्य बिभ्रुयात् उत वा त्यजेत् व्यक्तार्थो मनीष्युन्मत्त बालवत् कविर्मोकवतात्मानं स दृष्ट्या दर्शयेन्नृणाम् अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् प्रह्लादस्य च संवाधं मुने आजगरस्य च तंसयानं धरोपस्ते कावेर्यां सह्यसानुनी रजस्वलैस्तनूदेश्रैर्निगूढामलतेजसं दशर्षलोकान् विचरन् लोकतत् या वृतोमात्यैकथिपयै प्रह्लादो भगवत्प्रियः कर्मणा कृतिभिर्वाचालिङ्गैर्वर्णाश्रमादिभिः न विधन्ति जनायं वै सोसा विति न वेति च तं नद्वाप्यर्च विधिवत्पादयो शिरसा स्पृशन् विवित् सुरधमप्राक्षीन् बिभर्षिकायं पीवानां सोध्यमो भोगवान यथा वित्तं चैवोध्यमवतां भोगो वित्तवतामिह भोगिनां खलु देहायं पीवा भवतीनां यथा न ते सयानस्य निरुद्यमस्य ब्रह्मन्नुहार्तो यदेव भोगः अभोगिनोऽयं तवभिप्रदेह पीवा यतस्तद्वदनक्षमं चेत् कविकल्पो निगुणदृक् चित्रप्रियकथः समः लोकस्य कुर्वतः कर्म शेषे तद्वीक्षितापि वा नारथौ वाच दैत्यपतिना परिपृष्टो महामुनिः स्मयमानस्तमभ्याः तद्वाकमृतयन्त्रितः ब्राह्मण उवाच वेदे धम् असुरश्रेष्ठभवान् अन्वार्यसम्मतः ईहो परमयो नॄणां पदानि अध्यात्मचक्षुषा यस्य नारायणो देवो भगवान् हृद्गतः भक्त्या केवलया ज्ञानं अतापि अथापि भ्रूमहे प्रश्नान् अत राजन्यथाश्रुतं सम्भावनीयो हि भवानात्मनः शुद्धिमिच्छतां तृष्णया भव वाहिन्या योग्यै कामैरपूरया कर्माणि कार्यमाणोऽहं नानायोनिषुयोजितः यदृश्चयालोकमिमं या प्रापितः कर्मभिर्भ्रमन् स्वर्गाभवर्गयोर्ध्वारं तिरश्चां पुनरश्च अत्रापि दम्पतीनां च सुखाय अन्यापनुत्तये कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययं सुखमस्य आत्मनो रूपं भोकान् स्वप्स्यास्मि संविसन् इत्येतत् आत्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् विचित्रामसदि द्वैते घोराम् आप्नोति जलं तदुद्भवसैश्चन्तं हित्वाज्ञो जलकां ययां मृगदृष्णाम् उपाधापेत् यथा दृक्स्वतः यथा यत्ता धत्तृक्स्वतः देहादिभिर्दैवतन्त्रैः आत्मनः सुखमीहतः दुःखात्ययं चानीसस्य क्रियामोघा कृता कृताः आध्यात्मिकादिभिर्दुःखैः अविमुक्तस्य कर्हि चित् मर्त्यस्य कृच्छ्रोपणैतैराथैकामैः क्रियेत किम् पश्यामि धनिनां क्लेशं लुब्धानाम् अजितात्मनां भयातलब्धनिद्राणां सर्वेतोऽभिशङ्किनां राजतश्चोरतः शत्रुः स्वजनात् पशुपक्षितः अर्तिभ्यकालतक् नित्यं प्राणार्तवद्भयं ोऽहमोहभयक्रोधरागक्लैब्यश्रमादयः यन्मूलाशूर्नृणां जह्यात् स्पृहां प्राणार्तयोर्भुतः मधुकारमहा सर्पो लोकेऽस्मिन्नो गुरुत्तमो वैराग्यपरितोषं च प्राप्ता य शिक्षया वयं विरागः सर्वकामेभ्यत् शिक्षितो मे मधुव्रतात् कृच्छ्राप्तं मधुवत्वित्तं हत्वाप्यन्यो हरेत्पतिम् अनीकपरिदुष्टात्मा यत्रुश्चोपनदात् अहं नो चेच्छये भक्वहानिमहागिरिवसत्त्ववान् क्वचिदल्पं क्वचिद् भूरि भुञ्जेन्नं स्वाध्वा क्वचिद् भूरिगुणोपेतं गुणहीनम् उथ क्वचित् श्रद्धया उपाहृतं क्वापि कदाचित् बुञ्जे भुञ्जे भुक्त्वा त दिवानक्तं यदृश्चयाम् क्षौमं दुकूलमजिनं क्षीरं वल्कलमेव वा वसेन्न्यदभिः सम्प्राप्तं दिष्टभुक्तुष्टधीरहं क्वचिच्चयेधरोपस्थे तृणपर्णास्म भस्म स्वचित् प्रसादपर्यङ्के कशिपौवा परे चया क्वचित् स्नातो नो लिप्ताङ्घः सुवासा श्रव्यलङ्कृतः रते भास्वैश्चरे क्वापि दिक्वा सा नाहं निन्देन च स्तौमि स्वभावविषमं जनम् एतेषां श्रेय आसासेवुतैत्कात्म्यं महात्मनि विकल्पं जुगु याश्चित्तौ मनोवैकारिके हुत्वा जुहोत्यनो आत्मानुभूत तां मायां जुहुयात्सत्यृङ्मुनिः ततो निरीहो विरमेत् स्वानुभूत्यात्मनि स्थितः ते सुगुप्तमभिवर्णितं व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्परः धर्मं पारमहंस्यं वै मुनेः श्रुत्वा सुरेश्वरः पूजयित्वा ततः प्रीत आमन्त्र्यप्रययौ गृहम् इति श्रीमद्भागवते महापुराणे सप्तमस्कन्धे युधिष्ठनारतसंवादे यतिधर्मे सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमहाराज के जय